हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे चतुर्नवतितमः सर्गः राक्षसीनां विलापः तानि नागसहस्राणि सारूहाणि च वाजिनां रथानां तग्निवर्णानां सध्वजानां सहस्रश राक्षसानां सहस्राणि गदापरेखयोधिनाम् काञ्चन ध्वजचित्राणाम् शूराणाम् कामरूपिणाम् निहतानि शरद्धित्तै तप्त काञ्चन भूषणै रावणेन प्रयुक्तानि रामेण क्लिष्टकर्मणा दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचरः समागम्य दीना परिप्लुता विधव विधवा च क्रोशन्त्यो हत, हत बान्धवः राक्षस्य सह सङ्गम्य दुःखा तापर्यदे वयम् कथं शूर्पणखा वृद्धा कराला निर्णतोदरे आससादेवने रामम् कन्दर्प समरूपिणम् सुकुमारम् सर्वभूतहिते रतम् तम् दृष्ट्वा लोकवध्यासा हीनरूपा प्रकामिता कथम् सर्वगुणहीना गुणवन्तम् महोजसम् सुमुखम् दुर्मुखी रामम् कामयामास राक्षसी जनस्याश्चाल्पभाग्यत्वात् वलिनी श्वेतमूर्धय अकार्यम् अपहास्य च सर्वलोकविगर्हितम् राक्षसानां विनाशाय दूषणस्य खरस्य च चकारा प्रतिरूपा सा राघवस्य प्रदर्शनम् तन्निम् इदं वैरम् रावणेन कृतमहत् वधाय सीता सा नीता दशग्रीवेण रक्षसा न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् बद्धम् बलयवतावैरम् अक्षयम् राघवेण च वैदेहिम् प्रार्थयानम् तम् विराधम् प्रेक्ष्य राक्षसम् हठमेकेन रामेण पर्याप्तम् तन्निदर्शनम् चतुर्दश सहस्राणि रक्षसाम् भीमकर्मणाम् निहतानि चनर्थाने शरैरग्ने शिखोपमये करश्च निहत संख्ये दूषणस्त्रीशिरस्तथा शरै आदित्य सङ्काशै पर्याप्तं तन्निदर्शनम् हतो योजनबाहुश्च कबन्धो रुधिराशनः क्रोधान्नादं न दंसोऽ पर्याप्तं तन्निदर्शनम् जघानम् राम स्वस्र नयनात्मजम् वालिनम् मेरु सङ्काशम् पर्याप्तम् तन्निदर्शनम् दृश्य मोके वसैव दीनो भग्न मनोरथः सुगुरीवस्त्रापितो राज्यम् पर्याप्तम् तन्निदर्शनम् धर्मार्थ स्वहितम् वाक्यम् सर्वेषाम् दक्ष सातम् युक्तम् विभीषणेनोक्तम् मोहात् तस्य नरोचते रोचते विभीषण वच कुर्यात् यदि स्म धनदानुजः श्मशानभूता दुःखार्ता नेयम् लङ्का भविष्यति कुम्भकर्णम् हतम् श्रुत्वा राघवेण महाबलम् अतिकायम् च दुर्मार्षम् लक्ष्मणेन हतम् तदा प्रियम् चेन्द्रजितम् पुत्रम् रावणो नावबुध्यते मम पुत्रो मम भ्राता मम भर्ता रणे हत इत्येष श्रूयते शब्दो राक्षसीनां कुले कुले रथाश्वरागाश्च हता तत्र तत्र सस्रश रणे रामेण चूरेण हतश्चापि पदातयः रुद्रो वा यदि वा विष्णु महेंद्रो वाचतक्रतुः हन्ति नो रामरूपेण यदि वा स्वयमन्तकः हत रामेण निराशा जीविते वयम् अपश्यन्त्यो भयस्यान्तम् राथ विलपामहे रामः तादशग्रीव शूरो दत्त महावरः समुत्पन्नम् न बुध्यते तं देवा न गन्धर्वा न पिशाचा न राक्षसः उपसृष्टम् परितातुम् शक्ता रामेण संयोगे उत्पाता चापि दृश्यन्ते रावणस्य रणे कथयन्ति हि रामेण रावणस्य निबर्हणम् पितामहेन प्रीतेन देवदानव राक्षसै रावणस्या भयम् दत्तम् मनुष्येभ्यो नयाचितम् तदिदम् मानुषम् मन्ये प्राप्तम् निसंशयम् भयम् जीवितान्तकरम् घोरम् रक्षसाम् रावणस्य च पीड्यमानास्तु बलिना वरदानेन रक्षस दीप्ते सपोभि विभुधा पितामहम् न देवतानाम् हिताथाय महात्मा वैपितामह पितामह उवाच देवता तुष्ट इदम् सर्वा महद्वचः अद्य प्रभृति लोकान्स्मिन् सर्वे दानवराक्षसाः भयेन प्रभृता नित्यम् विचरिष्यन्ति दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमयि वृषध्वजस्त्रीपुरः महादेव प्रतोषितः प्रसन्नस्तु महादेवो देवानेतद्वचो ब्रवीत् उत्पत्स्यति हि साथम्वो नारी रक्षया वः एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवन् पुर भक्षयिष्यन्ति राक्षसग्ने स रावणाम् रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः अयम् नित्तानको घोरम् शोकेन समभिप्लुतः तम् न पश्यामहे लोके यो नः शरणदो भवेत् राघवेणोपसृष्टानाम् युगक्षये नास्ति नः ना शरणम् किञ्चित् भयेमहतिष्ठताम् दावाग्निवेष्टिना तानां हि करेणूनां यथा वने प्राप्तकालम् कृतं तेन पौलस्त्येन महात्मना यतेव भयम् दृष्टम् तम्बेव शरणम् गतः इति सर्वा रजनी चरत्रिय परस्परम् तम् परिरभ्य बाहुभिः विषेतुरादातिभयाभिपीडिता विनेदुच्चै च तदा सुदारुणम् इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे चतुर्वतीतमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु